नाम सर्वेभ्यः अस्माकं योगनिष्ठजीवनम् इति वर्गे भवतां सर्वेषां सुस्वागतम्. तर्हि अत्र इदं तु अस्माकं प्रथमः वर्गः अस्ति अहं किं करोमि इति चेत् मम स्लाइड्स दृश्यते खलु तर्हि इदानीम् अग्रे अहं करामि अस्तु तर्हि अत्र योगः इति विषयः तु अस्माकं सर्वेषामपि परिचितः विषयः अस्ति लोके तु योगः इति विषयः प्रसिद्धः वर्तते तर्हि योगः इत्युक्ते आसनानि इति एव तस्मिन्नेव रूपे वयं जानीमः योगः इत्युक्ते आसनं फ़िसिकल् एक्ससैज् इति रूपेण वयं जानीमः परन्तु योगः इत्यस्य वास्तविकः अर्थः कः इति वयम् अस्माकं वर्गे वयम् अवगच्छामः वयं पठामः तर्हि योगः इति तु लोके तु भिन्नभिन्नरीत्या योगाः सन्ति इत्युक्ते हतयोगः कुण्डलिनीयोगः विक्रमयोगः इति एवं रीत्या भिन्नभिन्न योगवर्गाः जा जायन्ते लोके परन्तु ते सर्वे अपि योगः इत्यस्य वास्तविकः यथार्थः अर्थः ते अवगच्छन्ति वा इति संशयः संशयः एव इत्युक्ते प्रायः ते न जानन्ति एव तर्हि योगः कः इति वयं अस्मिन् वर्गे वयं जानीमः अनन्तरम् अत्र अन्यत् अपि एकं वक्तव्यं योगः इत्यस्मिन् नैण्टि नैन् पर्सेण्ट् अभ्यासः नैण्टि अभ्यासः केवलं वन् एव सिद्धान्तः अथवा तियरि अतः यत्किमपि वयं पठामः अवगच्छामः अस्माकं वर्गे तस्य स्वजीवने अप्लिकेशन् करणीयम् आचरणीयम् अत्र किञ्चित् पठामः अनन्तरं गृहे गत्वा किमपि न कुर्मः चेत् लाभः न भवति अतः अस्माकम् अत्र वर्गे सङ्कल्पः करणीयः यत् मया अत्र किं पठ्यते यत्किमपि पठ्यते यत् किम यत्किमपि ज्ञायते तदहं स्वजीवने तस्य आचरणम् अपि अहं करोमि इति डिटर्मिनेशन् अत्र सङ्कल्पः करणीयः इत्युक्ते अत्र अयं अन्य अन्ये ये वर्गाः सन्ति तादृशः तादृशः नास्ति अयं वर्गः अयं वर्गः अप्लिकेशन् ओरियण्टेड् अस्ति अतः यत्किमपि वयम् अत्र पठामः तस्य स्वजीवने पालनम् आवश्यकं तदानीमेव तत्र योगस्य लाभः भवति अस्माकं शरीरम् एकं यन्त्रमस्ति तत्र लेब् लो अस्ति अतः तत्र यत्किमपि अत्र वयं पठामः तस्य एप्लिकेशन् वयं कुर्मः चेत् तदानीं तत्र रिजल्ट भवति वा इति वयम स्वयं साक्षात् कर्तुं शक्नुमः केवलम् अत्र एकस्मिन् दिने आगत्य श्रुत्वा वयम पुनः गृहं गच्छामः किमपि न कुर्मः चेत् लाभः न भवति अतः सङ्कल्पः करणीयः अतः भवतां गुरुदक्षिणा का इति चेत् तत्र कमिट्मेण्ट् अण्ड् अप्लिकेशन् एव गुरुदक्षिणा अत्र गुरुः कः गुरुः परमात्मा एव परमात्मनः प्रति अस्माकं गुरुदक्षिणा का इति चेत् श्रद्धा अपि च आचरणं स्वस्य जीवने आचरणं द्वयमपि आवश्यकं श्रद्धा आचरणं द्वयमपि आवश्यकं तदेव गुरुदक्षिणा गुरोः दक्षिणा श्रद्धा आचरणं स्वस्य जीवने आचरणं कमिट्मेण्ट् एण्ड् अप्लिकेशन् इति मनसि संस्थाप्य वयम् इदानीम् अग्रे गच्छामः एतावता यदुक्तं तदवगतं वा डिम्पल् भगिनी हा डिम्पिल् भगिनी अवगतं वा मया अस्तु तर्हि इदानीम् अग्रे तत्र पाठं प्रति साक्षात् गच्छामः तत्र अग्रे अग्रे अहं वदामि समीचीनम् सम्यक् सम्यक् तर्हि इदानीं तत्र मम उपस्थापनक्रमः कथमस्ति इति अहम् प्रदर्शयामि तेन अस्माकं वर्गः कथं प्रचलति इति वयम् अवगन्तुं शक्नु शक्नुमः तर्हि तत्र उपस्थापनक्रमः कथमस्ति इति चेत् प्रथमतया योगपरिचयः क्रियते अस्माभिः अत्र योगपरिचयः योगः नाम कः इति वयं तत्र जानीमः तर्हि योगविज्ञानस्य आरम्भः कथं जातः कथं तत्र जातः इति वयं ज्ञास्यामः अनन्तरं योगः इत्यस्य अर्थः कः योगः इति यः लोके व्यवहारः वर्तते तादृश अर्थः अस्ति वा योगः इत्यस्य यथार्थार्थः वास्तविकार्थः कः इति वयं जानीमः योगस्य लक्ष्यं किं योगं योगः किमर्थम् अस्माभिः क्रियते योगेन किं प्राप्यते इति तस्य विषये वयं ज्ञास्यामः अनन्तरं योगस्य प्रयोजनानि कानि इति वयं पश्यामः अनन्तरं तत्र योगः योगः इति यद्वयं वदामः तत्र तस्य अस्माकं स्वजीवने कथं तत्र कीदृशपरिवर्तनम् अस्माभिः कर्तव्यम् आहारविषये आसनानि अनन्तरं साधना इति अन्यानि यानि अंगानि योगाङ्गानि सन्ति तेषां विषये वयं चर्चां कुर्मः अनन्तरं इति प्रथमं प्रथम त्री फोर् वीक्स् किञ्चित् अहं वदामि भवन्तः शृण्वन्ति अनन्तरं तस्य विनियोगः तस्य अप्लिकेशन् स्वजीवने कुर्वन्ति इति एवं रीत्या भवति अत्र शृण्वन्ति अनन्तरं स्वजीवने आप्लिकेशन् कुर्वन्ति तदनन्तरं तत्र फिफ्त् सिक्स्त् वीक् मध्ये भवन्तः वक्तव्यं भवति तत्र योगेन कः लाभः प्राप्तः योगेन कः अनुभवः जातः यदा यद् अत्र पठितं तत् तस्य व्यवहाररूपेण आनयामः तदानीं तत्र अनुभवः कः अनुभवः जातः स्वशरीरे स्वमनसि एतत् सर्वं यूनिट् आब्सर्व् क्लोस्लि तद् अत्र वर्गे आगत्य तद् वक्तव्यं भवति किं किं जातम् इति वक्तव्यं भवति अतः अतः तत्र अप्लिकेशन् ओरियण्टेड् इति वक्तुं शक्यते एतत् आदौ परिचयं प्राप्त्वा तत्र आदौ परिचयं प्राप्य तदनन्तरं तत्र योगशास्त्रसम्बन्धकरपत्राणाम् अध्ययनं भवति अस्माकं करपत्राणि सन्ति योगसम्बद्ध फिलोसफि योगः इत्यस्य अर्थः कः तत्र किमर्थं योगः एतत् एतत् सर्वं वयं करपत्रद्वारा वयं पठामः अतः करपत्राणि सन्ति तानि स्वीकृत्य वयं आ, अग्रे गच्छामः पठित्वा अस्तु तर्हि इदानीम् उपस्थापनक्रमस्य विषये प्रश्नः अस्ति वा अस्तु तर्हि इदानीं विषयं प्रति गच्छामः योगपरिचयः इति विषयः अस्ति तर्हि तत्र वयं पश्यामः चेत् यदा वयं गृहं प्रति गृहं आगच्छा प्रति आगच्छामः बहिः बहिष्टात् गृहं प्रति आगच्छामः तदानीं कदाचित् वयम् आकाशं पश्यामः आकाशे नक्षत्राणि सन्ति तानि दृष्ट्वा वयं मोदिताः भवामः खलु एतादृश अनुभवः अस्माकं अनुभवः अस्माकं सर्वेषामपि अस्ति इत्युक्ते तादृश परिसरं दृष्ट्वा वयं स्तब्धाः भवामः मन्त्रमुग्धाः भवामः आकाशं दृष्ट्वा अथवा समुद्रस्य पार्श्वे वयं गच्छामः चेत् तदानीमपि समुद्रस्य तीरे तत्र सिकतायां सेण्ड् मध्ये उपविश्य तत्र वयं समुद्रं पश्यामः तदानीं समुद्रस्य विशालतां सौन्दर्यं च दृष्ट्वा वयम् आनन्दिताः भवामः अथवा वयं पर्वतस्य समीपे गच्छामः पर्वतं पश्यामः पर्वतं दृष्ट्वा अपि एतादृशः एव अनुभवः अस्माकं सर्वेषाम् अपि भवति भवति वा न वा भवताम् एतादृश अनुभवः जातः वा भगिनि एतादृश अनुभवः जातः वा जाता अनुभवः जातः समुद्रस्य पार्श्वे गच्छति चेत् तदानीं कीदृशः अनुभवः जायते हौ डु फील् वेन् यु गो नियर् द मौण्टेन् ओर् वेन् यु सि द मौण्टेन् और् वेन् यु सी दि ओशन् right you feel the peace inner peace right yeah inner peace yeah and you feel like going again there don't you yeah yeah we feel good ah. yeah ah kamishiram tathiham sarve etadrisya etadrisam kartum ichchama ah balat prauda paryantam from children to adults sarve manushyah evam kartum ichchanti janaah kadachit samudram drashtum gachhanti पर्वतं द्रष्टुं गच्छन्ति इति पर्वतं द्रष्टुं सर्व समुद्रं द्रष्टुं ते दीर्घयात्रामपि कुर्वन्ति बहु समयं स्वीकृत्य तत्र आ, गत्वा ते इच्छन्ति इति अस्माकं सर्वेषामपि एतादृश अस्ति तर्हि प्रश्नः अस्ति किमर्थम् एतादृश अस्माकं जायते किमर्थं वयम् एवं कुर्मः किमर्थं वयं तत्र गच्छामः तर्हि किं तत्र वयं प्राप् प्राप्नुमः किमर्थं जनाः एतत् सर्वं दृष्ट्वा मोदिताः भवन्ति किमर्थं जनाः रमन्ते तत्र कारणं किम् इति प्रश्नः उद्भवति इत्युक्ते रात्रौ आकाशं विशालं समुद्रं विशालं पर्वतं वा दृष्ट्वा जनाः किमर्थं प्रेरिताः भवन्ति तदर्थं जनाः दीर्घयात्रामपि कुर्वन्ति पर्वतस्य वा समुद्रस्य समीपं गच्छन्ति किं तादृश अनुभवार्थम् अस्मान् प्रेरयति इति प्रश्नः hmm? किम् uh, एतान् अनुभवम् अनुभवान् अन्वेष्टुं किं मनुष्यान् प्रेरयति वाट् मोटिवेट् अस् टु डु दिस् किमर्थं वयम् एवं कुर्मः इति प्रश्नः तर्हि अत्र अत्र पश्यामः चेत् अनन्तस्य इच्छा एतत् सर्वं वयं पश्यामः चेत् एतानि सर्वाणि अपि बृहन्ति सन्ति वेरि वेरि बिग, लार्ज् वैड् बेस्नेस् ग्रेट्नेस् एतत् सर्वं दृष्ट्वा अस्माकं मनसि आनन्दः जायते तत्र शान्तिः यथा डिम्पल् भगिन्या उक्तम् अस्माकं मनसि शान्तिः आयाति तर्हि अत्र किमर्थं वयं स्तब्धाः भवामः इति चेत् तत्र बृहद् वस्तूनां दर्शनेन क्षणिकरूपेण अनन्तेषण पूर्णा भवति न तु लघुवस्तूनां दर्शनेन यदा वयं बृहन् बृह ब्रह, बृहन्ती वस्तूनि वयं पश्यामः तदानीम् अस्माकं मनसि क्षणिकरूपेण अनन्तस्य इच्छा पूर्णा भवति द डिज़ैर् डीप् डिज़ैर् फार् द इन्फैनैट् इत्यस्य पूर्णा भवति इत्युक्ते अस्माकं सर्वेषाम् अन्तः अनन्तस्य गभीरा तृष्णा वर्तते वि आल् हाव् अ डीप् डिसैर् फ़ार् द इन्फैनैट् संथिङ्ग् इन्फैनैट् संथिङ्ग् वेरि लार्ज् वि वाण्ट् दट् कैण्ड् आफ़् लार्ज्नेस् वि डिसैर् वि हेव् अ डीप् डिज़ैर् फ़ार् द इन्फैनैट् एण्टिटि प्रत्येकं मानवस्य अन्तः अनन्ततां प्राप्तुम् इच्छा वर्तते वि वाण्ट् टु अचीव् लिमिट्लेस्नेस् अनन्तसत्तां प्राप्तुम् इच्छामः परन्तु वयं प्रायः तस्य विषये नावगच्छामः वि डोण्ट् नो इति कृत्वा वयं सरोवरं प्रति गच्छामः समुद्रं प्रति गच्छामः आकाशं प्रति गच्छ् आकाशं द्रष्टुं गच्छामः एतैः एतादृशैः एता विषयैः वयं मोहिताः मोहिताः भवामः अनन्त इच्छा प्रेरिता इति कृत्वा पुनः पुनः प्राकृतिकप्रदेशं प्रति गच्छामः द डिसैर् फार् इन्फैनैट् इस् देर् वित् एन् अस् दट् गेट्स् ट्रिगर्ड् वेन् यु गो टु द वेन् यु गो टु सि द ओशन् आर् द मौण्टेन् इति कृत्वा वयं प्राकृतिकप्रदेशं प्रति पुनः पुनः गच्छामः इत्युक्ते अनन्तसुखं कामना अथवा तृष्णा अस्माकं सर्वेषाम् अन्तः वर्तते अनन्तस्य आकाङ्क्षा वर्तते बृहत् वस्तूनां दर्शनेन अनन्तस्य आकाङ्क्षा पूर्णा भवति अतः एव एतानि दृश्यानि अस्माकं कृते आकर्षकाणि भवन्ति वयम् एतान द्रष्टुं गच्छामः एतैः वयं सुखमपि प्राप्नुमः योगः इति विषयः योगः इति विषयः तादृश अनुभवस्य संवर्धनार्थं टु कल्टिवेट् दट् कैण्ड् आफ़् एक्स्पीरियन्स् योगा इस् फालोड् तादृश अनुभवस्य संवर्धनार्थं योगः प्रयतते समुद्र समुद्रः समुद्रं वा भवतु पर्वतः भवतु एतेषां परिमाणं द सैज़् म्याग्निट्यूड् अस्मान् प्रेरयति वयं मोहिताः भवामः इत्युक्ते एतानि एतानि दृष्ट्वा एव जनाः पर्वतं दृष्ट्वा अथवा समुद्रं दृष्ट्वा जनाः चित्राणि कुर्वन्ति दे ड्रा पिक्चर्स् चित्राणि कुर्वन्ति वल्मिकं एण्ड् हिल् दृष्ट्वा तथा कुर्वन्ति खलु पर्वतं दृष्ट्वा समुद्रं दृष्ट्वा आकाशं दृष्ट्वा नदीं दृष्ट्वा ते कुर्वन्ति चित्राणि कुर्वन्ति परन्तु यद् यद वस्तु लघु अस्ति यथा एण्ट् तस्य विषये तु चित्रं न कवयः कवयवः कवयः ये सन्ति ते अपि एतेषां वस्तूनां विषये लिखन्ति लिक्क, गायकाः एतेषां विषये एव गीतानि गाय गायन्ति तर्हि वल्मीकस्य विषये चित्राणि न वयं पश्यामः इत्युक्ते अनेन किम् अवगम्यते जनेभ्यः बृहद्वस्तूनि रोचन्ते यतोहि अस्माकं किमर्थं बृहद्वस्तूनि रोचन्ते इत्युक्ते अस्माकम् अन्ते अनन्तस्य एषणा वर्तते डिसैर् फ़ार् द इन्फैनैट् इति कृत्वा एते सर्वे अस्माकम् एतानि सर्वाणि अस्माकं एतेभ्यः वयं सुखं प्राप्नुमः अस्माकम् अन्तः किमपि प्रेरितं भवति पर्वतं दृष्ट्वा समुद्रं दृष्ट्वा परन्तु अत्र ये गावः सन्ति अथवा पशवः सन्ति ते न तिष्ठन्ति खलु पर्वतं द्रष्टुम् अथवा तेभ्यः समुद्रं द्रष्टुं तेभ्यः सुखं प्राप्तुं तेन इच्छन्ति तेन तु तेषां ना ते तादृशप्रवृत्तिः नास्ति तादृशी प्रवृत्तिः नास्ति ते पर्वतस्य समीपे तत्र स्थित्वा पर्वतं न पश्यन्ति खलु तेषां कृते तु दीस् थिङ्ग्स् ट्रिगर्स् हेपिनस् इति नास्ति केवलं मनुष्याणां कृते एवम् अस्ति वि आर् ओन्लि अमेज़्ड् बै दीस् थिङ्ग्स् तर्हि योगिनः योगिनः एतत् सर्वं दृष्ट्वा ते अवगतवन्तः अत्र अस्मिन् विषये तत्र किञ्चित् विज्ञानम् अस्ति इति कृत्वा ते अस्य विज्ञानस्य वर्धनं कृतवन्तः यता तत्र सरोवरं वा सागरं वा दृष्ट्वा यादृश अनुभवः भवति तस्यापि अपेक्षया श्रेष्ठ अनुभवः अस्माकं भवितुम् अर्हति तत्र कथम् इति चेत् योगद्वारा नेत्रं नेत्रे निमील्य यदा वयम् अन्तः गच्छामः मनसः अन्तः गच्छामः गच्छामः तदानीं तादृश अनन्तस्य अनुभवः अस्माभिः प्राप्तुं शक्यते इति अत्र विषयः तर्हि पशवः तु तथा न कुर्वन्ति मण्डुकः अथवा गा तत्र गावः ते तु अथवा आकाशं दृष्ट्वा विस्मिताः भवन्ति केवलं मनुष्यः एव एव मनुष्याः एवं कुर्वन्ति तत्र किमपि अस्ति यत् एतां भावना प्रेरयति एष एषा भावना गहनतया अर्थपूर्णा अस्ति एतत् सर्वं दृष्ट्वा एव योगिनः अस्य विषये एकं विज्ञानं अस्तु तर्हि इदानीं तत्र स्लैड् द्वयं यद् अस्माभिः दृष्टं तस्य विषये किञ्चित् अत्र वक्तव्यं कः वदति अत्र सरलाभी वदति वा इदानीमस्ति किमर्थं वयं तत् भवामः इत्युक्ते तत्र एतादृशसमुद्रस्य पार्श्वे गच्छामः अथवा आकाशं पश्यामः अथवा पर्वतं पश्यामः चेत् तदानीम् अस्माकं मनसि कश्चन अनुभवः जायते तत्र दीप् जाय् किमर्थम् एतादृशं भवति भवति इति अस्माभिः चर्चितं तस्य विषये किञ्चित् वदतु एते यथा भवती दाशवती आ, एते दृश्या प्राकृतिकदृश्या यदि वयं पश्यामः तत् प्रथमं मनः शान्तः भवति mm. कारणकी प्रक्रियां प्रकृत्यामपि शान्तस्वभावः इति आकर्षति mm. मनस् मनसि mm. द्वितीयं भवति तत्र कोपि अन्य Uh, uh, विकारमल मल uh, न दृश्यते इति uh, सुन्दरता सौन्दर्यं दृश्यते सौन्दर्यम् अपि मनसि uh, um, अस्माभिः आकर्षं करोति सौन्दर्यं uh, सौन्दर्यमस्ति mm. uh, शान्तम् uh, अपि uh, किं मधु पक्षिणः मधुर मधुरगीतं गायन्ति तु तदपि मनः तत् श्रुत्वा मनस् सन्तुष्टः भवति टै थिङ्क् अस्माभिः बहु uh, uh of a vyavile ga vajjo eh within mm -hmm. a bit. yeah hi ya gachate asi shanta manasi modam mana si, uh, uh, modate uh, moda iti samichen samichen samichen itate etani drish etani drishtwa asma ka manasi a uh, tatra ananda jaayate वयं मन्त्रमुग्धाः भवामः विकम् त्रिल्ड् अमेज़्ड् एतत् सर्वं दृष्ट्वा योगिनः एतत् सर्वं दृष्ट्वा अस्य परितः एकं विज्ञानम् अस्ति इति ज्ञातवन्तः तद्विज्ञानं वर्धितवन्तः वर्धितवन्तः येन बहिः अगत्वा बहिः अगत्वा यत्र कुत्रापि वयं भवामः तत्र एव स्थित्वा नेत्री निमील्य वयम् अन्तः अस्माकं मनसः अन्तः गत्वा वयं समानानुभवं प्राप्तुं शक्नुमः वस्तुतः ततोपि श्रेष्ठम् अनुभवं प्राप्तुं शक्नुमः इति विषयः अस्ति इति योगस्य अस्य कः सम्बन्धः इति चेत् एतद् दृष्ट्वा एव योगिनः तत्र विज्ञानं वर्धितवन्तः एतादृश अनुभवः केवलं मनुष्याणाम् एव अस्ति न तु पशूनां पशूनाम् एतादृश अनुभवः नास्ति मण्डुकः अथवा अजः तु पर्वतस्य समीपे न गच्छति तत्र गत्वा स्थित्वा पर्वतं न पश्यति मनुष्याः एवं कुर्वन्ति अस्माकं कृते एव गहनतया अर्थपूर्णा अस्ति एतत् सर्वं दृष्ट्वा एव योगिनः अस्य विषये विज्ञानं कृतवन्तः वर्धितवन्तः अस्तु तर्हि एतावता अवगतम् इति मन्ये तर्हि इदानीं किञ्चित् अग्रे गच्छामः इत्युक्ते अत्र सारांशः कः इति चेत् अस्माकम् अन्ते अनन्तयेषणा वर्तते अनन्तं प्राप्तुम् इच्छा वर्तते यु वाण्ट् संथिङ्ग् इन्फिनैट् अनन्तसत्तां प्राप्तुम् इच्छा वर्तते अस्माकं सर्वेषां मनुष्याणां पशूनां कृते एतादृशः एतादृशी इच्छा नास्ति अस्तु तर्हि अग्रे गच्छामः इदानीं योगविज्ञानस्य आरम्भः एतत् सर्वं दृष्ट्वा एव योगिनः अस्य परितः विज्ञानं कृतवन्तः तर्हि प्रायः पञ्चादशसहस्रवर्षेभ्यः पूर्वं योगिनः एतत् सर्वं ज्ञातवन्तः प्राचीनकालात् एव जनाः एतदनुभवं अवगन्तुं संवर्धय संवर्धयितुं प्रयत्नं कृतवन्तः योगिनः प्रायः बहुकालात् पूर्वं आकाशं अथवा समुद्रम् अथवा पर्वतम् अदृष्ट्वा अपि एतादृश एतादृशः एतादृशम् आनन्दं प्राप्तुं शक्यते इति विचारं कृत्वा अस्य विज्ञानस्य विकासः कृतः एतद्विज्ञानमेव योगः इति प्रसिद्धिः अस्ति एतादृश अनुभवं प्राप्तुं नद्याः समीपे वा पर्वतस्य समीपे वा द्रष्टुं बहिः गमनस्य अपेक्षा नास्ति वयं यत्र कुत्रापि भवामः तत्रैव स्थित्वा नेत्रे निमील्य अन्तः गत्वा तस्मादपि उत्तमः अनुभवः प्राप्तुं शक्यते अनन्तस्य अनुभवं प्राप्तुं शक्यते तत्र विलक्षणः अनुभवः प्राप्यते अयम् अनुभवः सामान्यः नास्ति यदा वयं तत्र मेडिटेशन् यदा वयं कुर्मः साधना साधनां कर्तुं वयं तिष्ठामः तदानीं यादृशः अनुभवः जायते सः अनुभवः सामान्यः नास्ति विलक्षणानुभवः अस्ति इति अत्र उक्तम् आकाशपर्वतसमुद्राणां दर्शनेन या आनन्दप्राप्तिः तस्याः अपि अपेक्षया अधिकानन्दस्य प्राप्तिः योगद्वारा साधनाद्वारा तर्हि बहिः गमनस्य अपेक्षा नास्ति पर्वतस्य दर्शनार्थं समुद्रस्य दर्शनार्थम् इति बहिः अपेक्षा नास्ति वयं यत्र कुत्रापि भवामः तत्र स्थित्वा नेत्रे निमील्य वयं तादृशः अनुभवः अस्माभिः प्राप्तुम् शक्यते वस्तुतः इतोपि उत्तमः अनुभवः अस्तु तर्हि इदानीं प्रश्नः अस्ति अस्तु योगविज्ञानस्य आरम्भः जातः तर्हि योगः नाम कः योगः नाम कः इत्युक्ते योगः नाम कः इति ज्ञातुं ज्ञातव्यं चेत् प्रथमतया मनुष्यः कः इति अस्माभिः अवगन्तव्यं मनुष्यः कः इति अस्माभिः अवगन्तव्यं मनुष्यः इत्यस्य को अर्थः अहं कः मनुष्यः पशुः वा केवलं पशुषु बुद्धिमान् एव वा मनुष्यः इत्युक्ते तत्र यथा वानरः मूषकस्य अपेक्षया बुद्धिमान् अस्ति तथा मनुष्यः वानरस्यापि अपेक्षया बुद्धिमान् अस्ति वा तावदे तावान् एव भेदः अस्ति वा मनुष्यपशुयोः मध्ये इति पशोः मध्ये इति प्रश्नः अस्य प्रश्नस्य उत्तरे मनुष्यत्वस्य बीजं वर्तते मनुष्यः अपि च पशुः अनयोः भेदः कः इत्यस्मिन् इत्यस्य उत्तरे मनुष्यत्वस्य बीजः वर्तते मनुष्यत्वस्य रक्षणं ज्ञातुं शक्यते तर्हि योग वि, योगविज्ञानं ज्ञातुम् इच्छामः चेत् तर्हि मानवस्य च अन्यजीव जीवानां मध्ये वेदः कः इति अस्माभिः अवगन्तव्यं भवति मनुष्यः इति वक्तुं किम् अपेक्षितमस्ति किं वयं पशवः स्मः किं वयं पशुराज्ये स्मः केवलं पशुषु बुद्धिमत्तमः वा इति प्रश्नः किं वयं विविधपशूनां मध्ये बुद्धिमन्तः स्मः अथवा किं वयं पशुभ्यः गुणात्मकरूपेण भिन्नाः स्मः आर् वि जस्ट् लिटिल् बिट् मोर् इण्टेलिजेण्ट् देन् एनिमल्स् आर् वि इण्टेलिजेण्ट् एनिमल्स् अथवा अत्र इस् देर् अ क्वालिटेटिव् डिफ़्रेन्स् गुणात्मकरूपेण वेदः वर्तते वा इस् देर् ओन्लि अ क्वाण्टिटेटिव् डिफ़्रेन्स् मात्रात्मकवेदः एव अस्ति वा नो गुणात्मकरूपेण अपि भेदः अस्ति वा इति प्रश्नः जायते हौ आर् वि डिफ्रेण्ट् फ्रम् एनिमल्स् अस्तु तर्हि इदानीम् अत्र उमाभगिनी वदतु आर् वि डिफ़्रेण्ट् फ्रम् एनिमल्स् वयं पशुभ्यः भिन्नाः स्मः स्मः इति वक्तुं तु शक्नुमः कारणम् अस्माकं तु बुद्धिः अस्ति येन चिन्तनं कर्तुं शक्नुमः अवगन्तुं शक्नुमः अधिकं ज्ञातुं शक्नुमः तत्र बुद्धिभेदः अस्ति इत्युक्ते अनयोः मध्ये भेदः अस्ति इति समीचीनं समीचीनम् उत्तरं भेदः अस्ति तर्हि अनयोः मध्ये केवलं बुद्धिभेदः एव अस्ति वा इति प्रश्नः बुद्धिभेदः तु अस्ति परन्तु केवलं बुद्धिभेदः एव अस्ति वा इति बुद्धिभेदः इति तु वानरः अपि च मूषकः अनयोः मध्ये अपि बुद्धिभेदः अस्ति वानरः अपि पशुराज्ये अस्ति अनिमल् किङ्ग्डम् मध्ये अस्ति मूषकः अपि अनिमल् किङ्ग्डम् मध्ये अस्ति तर्हि वयमपि मनुष्याः अपि तत्र एव स्यात् तत्र इति वा, वा... वा... प्रश्नः केवलं बुद्धिभेदः एव अस्ति वा इति किञ्चित् पश्यामः अस्तु तर्हि एतेषां समाधानं सर्वं योगसम्बधितं वर्तते मनुष्यः अपि च पशुः अनयोः भेदः कः इति वयं पश्यामः तर्हि मनुष्यः कः एषः बहु महान् प्रश्नः अस्ति मनुष्यः कः अस्य विषये अस्मिन् विषये जीवनस्य सर्वेभ्यः क्षेत्रेभ्यः जनाः चिन्तितवन्तः अपि च स्वस्य मतमपि दत्तवन्तः अथवा स्वस्य मतं दातुं यत्नं कृतवन्तः दार्शनिकः वा भवतु फिलासफर्स् वैज्ञानिकाः सैण्टिस्ट् अनादिकालात् एव अस्य अस्मिन् विषये चिन्तनं कृतवन्तः अपि च स्वमतमपि दत्तवन्तः केचन वदन्ति यत् मानवः बुद्धिमान् पशुः इति इत्युक्ते तत्र दार्शनिकेषु वैज्ञानिकेषु केचन वदन्ति मानवः मेन् इस् एन् इण्टे इण्टेलिजेण्ट् एनिमल् मानवः बुद्धिमान् पशुः इति परन्तु एतादृश उत्तरं तु अज्ञानवशात् एव यतोहि पशुमनुष्ययोः मध्ये केवलं मात्रायाः भेदः नास्ति अपितु तु गुणात्मकभेदः वर्तते देर् इस् अ क्वालिटेटिव् डिफ़्रेन्स् बिट्वीन् ह्यूमेन् बीयङ्ग्स् एण्ड् एनिमल्स् गुणात्मकरूपेण भेदः वर्तते अस्मिन् विषये मात्राया भेदः इत्युक्ते किम् quantitative difference quantitative okay. difference quantitative okay. difference there is a qualitative difference yoginaha api svasya matam dattavanta asmin visaye tesam utaram tu bahu vilakshanam asti santosha janakam api asti tesam utram pekimukta vanta iti che ida vayam akasham parvatam athava samudram pashyamaha तदा तदानीम् अस्माकं दि एक्स्पीरियन्स् चिल्नेस् इन् अवर् स्पैन् दि एक्स्पीरियन्स् यूनीक् एक्स्पीरियन्स् यूनीक् फीलिङ्ग् अथवा आनन्दः शान्तिः इति वयम् अनुभवामः अयम् अनुभवः एव बीजः अस्ति मनुष्यत्वस्य अयम् अनुभवः एव मनुष्यान् अन्येभ्यः पृथक् करोति एतादृश अनुभवः पशूनां न भवति केवलं मनुष्यान् एव भवति इति तत्र योगिनां चिन्तनम् आसीत् योगिनाम् उत्तरम् आसीत् तर्हि इदानीम् अत्र स्लैड् द्वयं यद् मया वस्तुतः स्लैड् तत्र किम् उक्तम् इति सः वदति तत्र अस् अस्तु उमाभगिनी वदति वा तत्र किम् उक्तमिति सम्यक्तया वक्तुं न शक्नोमि आङ्ग्लभाषा वदतु चिन्ता नास्ति मया स्लैड् त्रयम् इत्यत्र यद् मया उक्तं तस्य पुनः पुनः रिपीटेट् अनुवदतु तेन मया अवगम्यते भवती अवगतवती वा न वा इति मया अवगम्यते मनुष्यः आनन्दं प्राप्नुवन्ति यत् पशवः ऐ मीन् पशुजाति न प्राप्नुवन्ति इति वयं चिन्तयामः तस्मिन् विषये तु अधिकं ज्ञानं तु नास्ति सो द डिफ्रेन्स् बिट्वीन् पशु एण्ड् मानवः सीम्स् टु बि देट् क्वालिटेटिव् डिफ़्रेन्स् नाट् जस्ट् बुद्धिविषये मूषकः वानरः यदा वयं कम्पेर् कुर्मः तत्र तु वानरः अधिकम् इण्टेलिजेण्ट् अस्ति इति वयं वक्तुं शक्नुमः तस्मिन् विषये यदा मनुष्येन सह कम्पेरिसन् कुर्मः तदा mm. पुनः मनुष्यस्य इण्टेलिजेन्स् अधिकम् इति वक्तुं शक्नुमः तत्तु अस्ति mm. क्वाण्टिटेटिव् mm. परन्तु मनुष्यस्य कृते क्वालिटेटिव् अपि वयं किं वि हेव् नोटिस्ड् इट् कारणं दिस् पर्वतस्य समुद्रस्य दृश्येन यत् आनन्दं मनुष्यः प्राप्नोति तत् वयं पशु भागे न पश्यामः वा न देट्स् नाट् फेल्ट् बै एनिमल्स् सो सो फ्रम् देट् पोइण्ट् आफ़् व्यू वी केन् से देट् मनुष्य इस् रियली भिन्न फ्रम् एनिमल्स् बहु सम्यक् सम्यक् उत्तमं सम्यक्तया गतवती समीचीनं समीचीनम् इत्युक्ते तत्र महोदय पृच्छामि वा अहं समीचीनं मयूर मयूरः यदा वृष्टिः भविष्यति तदा नृत्य नृतिष्यति नर्तिष्यति खलु आम् वातावरणं दृष्ट्या प्रकृतिं दृष्ट्या ते न स्पन्दन्ति इति न सत्यम् हा इत्युक्ते मनुष्यस्य यादृशस्पन्दनम् अस्ति तादृशमेव अस्ति वा मयूरस्य मनुष्यस्य <laughs> इत्युक्ते मनुष्यस्य स्पन्दनम् इत्युक्ते तत्र ता तत्र हा मनुष्यस्य स्पन्दनम् इत्युक्ते तत्र तत्तु तत्र स्वाभाविकः अस्ति खलु तत्र मयूराणां कृते स्वाभाविकः अस्ति वृष्टिः जायते चेत् तेषां ट्रिगर् ते नृत्यं ट्रिगर कुर्वन्ति परन्तु मनुष्यः तु इत्युक्ते वयं तु स्वयं गच्छामः पर्वतं द्रष्टुं गच्छामः अथवा समुद्रं द्रष्टुं गच्छामः किमर्थं वयं गच्छामः इति प्रश्नः जायते खलु किमर्थं वयं समुद्रं द्रष्टुं गच्छामः अथवा पर्व पर्वतं गच्छामः किं प्राप् किं किं प्राप्तुं वयं तत्र गच्छामः किमर्थं वयं गच्छामः किमर्थं मयूरः नृत्यते मयूरः नृत्यति इत्युक्ते तत्र स्वाभाविकः अस्ति तत्र वृष्टिजलं यदा पतति तत्र स्वाभाविकः इति वयं वदामः किन्तु स्वाभाविक इत्युक्ते किं तत्र मयूरः नन्दति वा मयूरः नन्दति अवश्यं नन्दति न नन्दति इति नास्ति नन्दति न नन्दति इति नास्ति इत्युक्ते तत्र तत्र तस्य सहजप्रवृत्ति अस्ति मयूरः किमर्थं नन्दति इति तस्मिन् विषये चिन्तनीयमेव समीचीनः प्रश्नः तस्मिन् विषये चिन्तनीयं किमर्थं नृत्यति वृष्टिजल जलं यदा पतति तदानीं किमर्थं नृत्यति इति चिन्तनीयः विषयः अस्ति तस्मिन् विषये इतोपि चिन्तनीयं परन्तु सामान्यतया यदा वयं पश पशवः इति वयं पश्यामः तदानीं तेषां तु एतादृशः अनुभवः न जायते इत्युक्ते तत्र शुनकः अस्ति शुनकस्य कृते तादृश अस्ति वा शुनकस्य भिन्न आनन्दं भवति तथैव एव भवितुम् अर्हति इति न किमर्थं चेत् अहं प्रायः भवति प्रायः उदाहरणरूपेण भवती वृष्टिः दृ दृष्ट्वा नन्दति किन्तु अहं न मोदामि अहं न मोदामि अस्तु हा समुद्रं कोऽपि मनुष्यः गन्तुमिच्छति कोऽपि न नय भयं वर्तते इति तर्हि कः किं दृष्ट्वा स्पन्दति इति न वक्तुं शक्यते खलु मनुष्यः अपि सर्वे तथैव न कुर्वन्ति जलपातं दृष्ट्वा बहु वदति कोपि गन्तुमेव न इच्छति न परन्तु मनुष्याणां कृते किमपि विशालं दृष्ट्वा कश्चन अनुभवः जायते खलु प्रायेण प्रायेणेषां मनुष्य किमपि विशालं दृष्ट्वा आनन्दः तत्र आश्चर्य इत्युक्ते आनन्दः न जायते चेदपि आश्चर्यचकितः भवामः भवामः खलु चकितः भवति परन्तु मयूरः मयूरः पर्वतं दृष्ट्वा आश्चर्यचकितः भवति वा प्रायः मयूरः इट्स् इस् मोर् Whereas, we, only when we are tired from all these stupid things we do, then mm -hmm. we take time to do. Therefore, we have Chakitaha. But every day, ah, okay. if you are living by the seaside, you are not going to be Chakitaha by the sea. Shore. But one day, suddenly you decide, I am going to take leave from all this and I am going to visit. So, Chakitaha is going to be here. इत्युक्ते भवान् वदति तत्र समुद्रस्य पी पी पी थी। आ, थी। समुद्र मध्ये एव वयं तिष्ठामः चेत् आनन्दितः न भवामः इति वा न चकितः न भवामः इति आनन्दितः भवितुमर्हति न भवितुम् अर्हति किमपि अन्यम्पि अपि भवितुम् अर्हति यदा मत्स्यगारः अस्ति मत्स्यकारः तु समुद्रमध्ये एव अस्ति सदा मोदति इति नास्ति न परन्तु तत्र विशालतां दृष्ट्वा तस्य मनसि तस्य मनसि कश्चन जायते खलु विशालतां दृष्ट्वा तस्य समुद्रस्य शक्तिं दृष्ट्वा यदा यदा सः तु समुद्रस्य मध्ये गच्छति तत्र मत्स्यान् आहर्तुं तदानीं तत्र तस्य शक्तिं दृष्ट्वा तस्य विशालतां दृष्ट्वा तु तत्र सः अवगच्छति तत्र तत्र तस्य मनसि तत्र किमपि जायते हि एक्स्पीरियन्स् अस् संथिङ्ग् इन् हिस् मैण्ड् दिस् दिस् ओशन् टु बिग् इट्स् इट्स् वेरि पवर्फुल् दट् तादृश अनुभवः तु जायते खलु तस्यापि इत्युक्ते अस्माकं सर्वेषाम् अनुभवः तु जायते केचन अवगच्छन्ति केचन न अवगच्छन्ति भवान् वदति केचन न अवगच्छन्ति तस्य तस्मिन् विषये अवधानं न द तत्र अस्मिन् विषये अवधानं न ददति ददाति इति वदति तत्तु अस्ति इत्युक्ते पुनः पुनः तदेव वयं पश्यामः चेत् तदानीं तत्र प्रायः तस्मिन् विषये वयम् अवधानं न दद्मः तत्तु अस्ति परन्तु सामान्यतया जनानां तु एतादृश अनुभवः तु अस्ति एव अस्ति एव खलु नो चेत् किमर्थं वयं दीर्घयात्रां कुर्मः आनन्द इति अस्ति इत्युक्ते तत्र इत्युक्ते अनुभव अनुभवे भेदः भवितुम् अर्हति मम अनुभवः अहं वदामि प्रायः मयूरः प्रतिदिनम् आनन्देन वर्तते इति तर्हि मनुष्यः आनन्द आनन्दार्थं mm. तत्र गच्छति एकक्षणं mm. किन्तु hmm. mm. आनन् आनन्देन मयूरः वर्तते इति यदि अहं वदामि चेत् ओ oh, आनन्देन मयूरः वर्तते इति तस्य किं प्रमाणम् आनन्देन मयूरः वर्तते इति किं प्रमाणम् किं प्रमाणम् इत्युक्ते कथं वयं जानीमः सः न वदति सः नास्ति वा अस्ति वा प्रमाणः कः हा इत्युक्ते सहजरूपेण सः आनन्देन वर्तते इति सत्यं सर्वेषां कृते सुखमस्ति सर्वेषां सुखमस्ति परन्तु सुखस्य मानं किम् इत्यत्र भेदः तदेव वयम् अग्रे पश्यामः सुखस्य मानं किम् इति वयम् अग्रे पश्यामः मयूरस्य आनन्दः नास्ति इति न मयूरः इत्युक्ते अत्र आनन्दः इति शब्दः अनन्तरं सुखम् इति शब्दः अनयोः भेदः वर्तते तर्हि मयूरः आनन्देन वर्तते इत्यत्र अहं किञ्चित् परिष्करोमि मयूरः सुख सुखेन वर्तते इति वक्तुं शक्नुमः आनन्दः इति इत्यस्य अर्थः भिन्नः अस्ति सुखमिति शब्दस्य भिन्नः मयूरः सुखेन वर्तते इति चेत् आं सुखेन वर् सुखेन भवितुमर्हति सुखेन भवितुम् अस्य सुखस्य मानं किञ्चित् भिन्नम् अस्ति तत् किम् इति वयम् अग्रे पश्यामः द्वितीयं बुद्धिमान् इति भवति अवदत् वा मनुष्यः बुद्धिमान् इति वा मनुष्यः न मनुष्यः बुद्धिमान् न मनुष्यः बुद्धिमानेन मनुष्यः बुद्धिमान् अस्ति इति तत्र तादृशविचारः अस्ति मनुष्यः कः इति यदा प्रश्नः जायते केचन वदन्ति तत्र मनुष्यः पशुभ्यः इतोपि बुद्धिमान् अस्ति इति तावदेव तत्र भेदावानेव भेदः अस्ति अनयोः मध्ये इति केचन केषाञ्चन अभिप्रायः अस्ति अत्र बुद्धिमाभिष्य मनुष्य मनसि इति विवेक अस्ति इति साधु अस्ति वा दास्ति तादृश तदेव बुद्धिमान् इण्टेलिजेन्स् इति इति अस्ति इति तावनेव भेदः अस्ति वा इति प्रश्नः मनुष्यस्य मनुष्यस्य पशोः मध्ये तावानेव भेदः अस्ति वा इति प्रश्नः तर्हि केचन वदन्ति यत् इति तावानेव भेदः अस्ति इति वदन्ति केचन मनुष्यपशोः मध्ये तावानेव आं तावदेव केचन इदानीं तु न प्रति प्रतिपा तथैव न प्रतिपादयति न अहं न प्रतिपादय इति केचन वदन्ति परन्तु योगिनां मतं तु भिन्नम् इदानीं तु अत्र योगिन योगिनः कथं चिन्तयन्ति इति एव विषयः अस्ति मम अभिप्रायः इति किमपि नास्ति योगिनः ना किं चिन्तयन्ति अन्ये अन्ये किं चिन्तयन्ति इति विषयः अहं स्पष्टीकरणं किम् उक्तमिति प्रतिपादयति आम् सत्यं सत्यं तदेव सत्य, सत्य, सत्य। समीचीनम् अस्तु तर्हि इदानीम् अग्रे गच्छामः वा धन्यवाद धन्यवा इत्युक्ते अत्र स्वामीजी अहमेकं वक्तुमिच्छामि तत्र अन्यदर्शनस्य मते तु भिन्नं भवितुमर्हति वेदान्ते अथवा अन्यदर्शनस्य मध्ये भिन्नं भवितुमर्हति अत्र तु यद् उच्यते तत्तु योग योगयोगानुसारं योगदर्शनानुसारं योगदर्शनानुसारम् इत्युक्ते पातञ्जलयोगदर्शनानुसारं वा योगः इत्युक्ते तत्र योगः इत्युक्ते पातञ्जलयोगः इति न योगः इति योगः वास्तविकः योगः पातञ्जलयोगः इति अपि भवितुमर्हति योगः किमपि प्रमाणं भवितुम् अर्हति चेत् दर्शनानां मध्ये योग इत्युक्ते आम् अष्टाङ्ग इत्युक्ते योगः इत्यस्य आरम्भः पात पतञ्जलिद्वारा न जा न जाता न जातः खलु अतः योगः इत्युक्ते तत्र इत्युक्ते पूर्वं वेदेषु उपनिषत्सु अपि योगः इत्यस्य व्यवहारः अस्ति गीतायामपि अस्ति अतः योगः इत्युक्ते अहं केवलं योगः इति वयं वदामः यतो हि साक्षात् पतञ्जलियोगः इति अहं न वदामि यतोहि वयं तु पतञ्जलियोग पतञ्जलियोगसूत्राणि वयं न पठामः अत्र अस्माकं वर्गे अस्माकं कृते तत्र करपत्राणि सन्ति तद् वयं तत्र यत् तत्र स्वरूपमहोदयेन पूर्वं पाठितं तथा तत् स्वीकृत्य वयं पठामः अतः योगसूत्राणि इत्युक्ते पतञ्जलियोगसूत्राणि इति न परन्तु पतञ्जलियोगसूत्रेषु अष्टाङ्गयोगः इति विषयः अस्ति सः एव विषयः अस्ति किन्तु भवती वेदेषु वेदे वेदेषु वेदं तु चत्वारः नास्ति एकमेव वेदमध्ये योगः अस्ति इति अवदत् खलु तर्हि योगः इति इन् अ वेरि जनरल् सेन्स् यु आर् सेयिङ्ग् यु नो द टीचिङ्ग् इस् इट् इस् योग इट् इस् नथिङ्ग् टु डु ओन्लि वित् अ पर्टिक्युलर् योग समीचीनं वा आमां योगः इति योगः इत्यस्य वास्तविकः अर्थः कः इति इदानीं पश्यामः um as to ma na okay uh, please move ahead i don't want to hold you up yeah. we have to hold the context huh? somewhere <laughs> it has to yeah, yeah, yeah. no i i i, I want to clarify we we are not going to be uh, we are not going to be reading the the the patanjali's uh, yoga sutra ni we are not going to be reading, reading that that i want to clarify etamaya puru tatra भवान् किञ्चित् विलम्बेन आगतवान् अतः तत्र तत्र क्रमः इति मया स्थापितं तत्र किं वयं कुर्मः अस्मिन् वर्गे इति वयं मया स्थापितं पूर्वं तद् पश्यति चेत् तत्र अवगम्यते यत् अत्र करपत्राणि योगसम्बन्धत फिलासोफिकल् करपत्राणि सन्ति तद् वयं पठामः अत्र अपि च योगनिष्ठजीवनम् इत्यस्य व्यवहारिकरूपेण अस्माभिः अस्माकं जीवने कथं परिवर्तनं कर्तुं शक्यते इति अपि वयं पठामः अत्र अस्तु अस्तु अतः तत्र किञ्चित् तत्र ध्वनिमुद्रणं पुनः शृणोति चेत् सम्यक् भवति अस्तु तर्हि इदानीं किञ्चित् अत्र अग्रे गच्छामः अत्र यदुक्तं तत् तत्र मनुष्यपशोः मध्ये गुणात्मकः भेदः अस्ति क्वालिटेटिव् डिफ्रेन्स् अस्ति केवलं क्वाण्टिटेटिव् डिफ़्रेन्स् नास्ति इति अत्र उक्तमस्ति इदानीं तत्र स्वामीजी स्वामीजिना उक्तं यत् तत्र पशवः अपि सुखमिच्छन्ति खलु मयूरः अपि नृत्यति सुखमिच्छति आनन्दितः भवति इति उक्तं तर्हि सुखमिच्छन्ति इति तु सत्यं सर्वे सुखमिच्छन्ति सर्वे सुखम् इच्छन्ति तस्य विषये एव इदानीं वयं पश्यामः सर्वेषां प्राणिनां मध्ये बुद्धिभेदः वर्तते एव वानरस्य अपेक्षया मू मूषकस्य अपेक्षया वानरः बुद्धिमान् वानरस्य अपेक्षया मनुष्यः बुद्धिमान् इति तत्र बुद्धिभेदः तु सर्वेषां वर्तते अपि च सर्वेषामपि मनः वर्तते एव कथं मनः वर्तते इति वयम् अग्रे पश्यामः तस्य विषयेतोपि विस्तृततया वयं चर्चां कुर्मः सर्वेषां तु मनु मनः वर्तते परन्तु तेषां विकासे भेदः वर्तते मनसः विकासे भेदः वर्तते एवं तत्र भिन्नप्राणिनां सुखे अपि भेदः वर्तते आ, सर्वे प्राणिनः सस्यानि वा भवतु सिङ्गल् सैड् आर्गानिसम् वा भवतु इन्सेक्ट्स् वा भवतु वानरः भवतु सिंहः वा भवतु मनुष्याः भवतु सर्वे सुखस्य अन्वेषणं कुर्वन्ति एव्रिबडि वाण्ट्स् हेपिनेस् परन्तु सुखस्य स्वरूपं भिन्नं भिन्नं भवति प्रत्येकं जीवस्य कृते सर्वे मनुष्याः सर्वे जीवाः स्वजीवने सुखं याचन्ते कीटाः भवतु सिङ्गल् सेल् आर्गानिसम् भवतु वनस्पतयः भवतु पशः भवतु सर्वे स्वजीवने सुखस्य अन्वेषणं कुर्वन्ति परन्तु तस्य स्वरूपं भिन्नं भिन्नं भवति सर्वेषाम् अपि मनः वर्तते सर्वेषामपि जीवानां मनः वर्तते मनसः विकासे भेदः अस्ति तेषां सुखे अपि भेदः वर्तते अस्तु तर्हि इदानीं सुखस्य रूपं किम् अस्ति प्रत्येकं जीवस्य कृते सुखस्य रूपं किम् अस्ति इदानीं सिङ्गल् सेल्ड् आर्गानिज़म्स् इति वयं पश्यामः चेत् ते ते अपि सुखम् इच्छन्ति तेषां कृते सुखं किम् इति चेत् पर्याप्तं जलम् एलेक्ट्रोलैट्स् स्थिरवातारणं वातावरणं स्थिरसन्तुलम् सन्तुलनम् एतत् सर्वम् अस्ति चेत् ते सुखेन भवन्ति इदानीं प्लाण्ट्स् इति वयं स्वीकुर्मः चेत् तेषां कृते सुखं किम् इति चेत् अत्र उत्तमवातावरणं मृत्तिका जलम् एतत् सर्वम् ते सुखेन भवन्ति इदानीं पशूनां कृते वयं पश्यामः चेत् तेषां कृते तु वानरादिपशूनां कृते तु पर्याप्तं भोजनं सुरक्षितं वातावरणं जलम् एतत् सर्वम् अस्ति चेत् ते सर्वे अपि सुखेन जीवन्ति इति वयं पश्यामः चेत् तत्र एकस्य जीवस्य अपेक्षया अन्यस्य जीवस्य कृते सुखं प्राप्तुं किम् आवश्यकम् इत्यत्र भेदः अस्ति परन्तु सर्वे तु सुखम् इच्छन्ति एव तर्हि सुखस्य निकषाः क्रैटीरिया भिन्नाः भवन्ति प्रत्येकं जीवस्य कृते मानवाः अपि सुखम् इच्छन्ति परन्तु वयं पश्यामः चेत् मनुष्याणाम् इच्छायाः अन्तः नास्ति एकेन वस्तुना सुखं प्राप्यते चेत् ते आनदिताः न इतोपि इतोपि अन्यत् इतोपि अन्यत् इति ते इच्छायाः अन्तः एव नास्ति एकं वस्तु प्राप्यते चेत् अन्यस्य आकाङ्क्षा वर्तते तेषाम् ते इति तत्र मनुष्यस्य अनन्तेषणा वर्तते दे हेव् इन्फैनैट् डिज़ैर् बहु बहु आवश्यकं यत्किमपि प्राप्यते ततोपि अधिकं तेषां कृते आवश्यकम् अस्ति तर्हि इदानीम् एतावता यद् ज्ञातं तस्य विषये तत्र सुनन्दा भगिनी किञ्चित् वदति वा अहं प्रयत्नं करोमि भगिनि समस्कृतेन कर्तुं चेदपि आङ्ग्लभाषायां वक्तुं शक्नोति हिन्दी हिन्दी मे बोलङ्गी हि इङ्ग्लिश में बो सकतिङ्ग्लिश मे बोल सकति ह्यूमन् लिफन्निमल आर क्रियेटेड बा युनिवर्सल पावर्ट्टु बी हे एण्ड दे ओलवेज सिक हेस Uh, we also say that uh, uh, nearest to God is the nature. Nature meaning ocean, mountain, sun, and moon, and a few other things. So when we look at those natural things which are made by God or super power, we think that become very happy just by looking at them and that is the reason we every now and then we go on a mountain uh, to become happy to seek happiness and we go to other natural atmosphere environment to become happy a uh, similar way all the animals they also want to become happiness however happiness the definition of happiness is different in animals and different in human beings so as mm -hmm. per their their capabilities and their their energy both are seeking for happiness uh the main difference between animal and human is um aahar bhay nindra n maitun those mm. four things are similar in animals and humans however the big difference is animals are intellectual animals they are they have buddhi they can think they have thinking power they they can think about themselves what is right for me and what is wrong for me and they also have the sense of uh, god and they have a desire to to be closer to god um is that good enough m rosamya pavani bahu samichanam samyakta upavati samichanam tah hi atra putra atmakam arambha jataha iti chet योगविज्ञानम् आरब्धम् इति उक्तं तर्हि योगः नाम कः इति इत्यतः अस्माभिः आरब्धं योगः नाम कः इति अवगन्तुं मनुष्यः कः इति अस्माभिः मनुष्यः वयं पशवः वा पशुराज्ये स्मः वा नो चेत् पशुषु बुद्धिमन्तः एव वयं वा इति तादृशप्रश्नः जातः अस्य विषये तत्र बहूनां चिन्तनम् अपि अस्ति दार्शनिकानां वैज्ञानिकानाम् अनादिकालात् चिन्तनम् अस्ति ते केचन वदन्ति तत्र मनुष्यः बुद्धिमान् पशु इति परन्तु योगिनां मते तादृश उत्तरं सम्यक् नास्ति अज्ञानवशात् इति योगिनः वदन्ति मनुष्यपशोः मध्ये केवलं क्वाण्टिटेटिव् डिफ्रेन्स् नास्ति तेषां मध्ये गुणात्मकः भेदः अस्ति इति अत्र उक्तं किमर्थमेवम् उक्तम् इति चेत् अस्माकं कृते तत्र अनन्तेषणा वर्तते एतादृश अनन्तेषणायाः बीजं वर्तते कुत्र इति यदा वयम् आकाशं वा समुद्रं वा वयं पश्यामः तदानीम् अस्माकं मनसि आनन्दः अनुभवः कश्चन विलक्षणानुभवः जायते सः एव बीजः अस्ति मनुष्यत्वस्य इति अत्र योगिनां मतमस्ति अपि च अस्माभिः दृष्टं यत् सर्वे जीविनः सुखम् इच्छन्ति सर्वे जीविनः सुखम् इच्छन्ति परन्तु सुखस्य स्वरूपं भिन्नं भिन्नं भवति इति अस्माभिः एतावता चर्चितम् अत्र वयं स्थगनं कुर्मः यतोहि अत्र समयः अतीतः कोपि प्रश्नः सन्ति चेत् प्रष्टुम् अर्हन्ति इत्युक्ते फस्ट् अत्र अहं किमपि वक्तुमिच्छामि अत्र फस्ट् त्री फोर् वीक्स् केवलम् एतादृशचर्चा भवति येन वयं योगनिष्ठजीवनं नाम किम् अस्माकं जीवने कथं तस्य व्यवहारः योगः नाम कः योगस्य परिचयः अनन्तरम् आहारः व्यवहारः एतत् सर्वं तत्र कथम् अस्माभिः स्वजीवने कथम् आनेतुं शक्नुमः इति प्रथमतया अवगम्य तदनन्तरं योगसम्बन्धितकरपत्राणि वयं पठिष्यामः इति अस्माकं क्रमः अस्ति अपि च अन्यदपि वक्तुं पुनः वक्तुम् इच्छामि यत् योगः नैण्टि नैन् पर्सेण्ट् प्राक्टिस् अस्ति केवलं वन् पर्सेण्ट् थियरी अस्ति योगमतानु अनुसारेण केवलं पठनेन अत्र अस्माकम् अधिकः लाभः न भवति यद् अत्र तस्य व्यवहारे जीवने आनयनम् आप्लिकेशन् आफ़् वाट् एवर् वि लर्न् इस् वेरि अतः आहारस्य विषये वा व्यवहारस्य विषये वा भवतु यद, अस्माभिः अत्र पठ्यते तस्य स्वजीवने व्यवहारः इम्प्लिमेण्टेशन् विनियोगः आवश्यकः अस्ति विनियोगं न कुर्मः चेत् लाभः न भवति इति पुनः अहं वक्तुम् इच्छामि अतः आफ्टर् त्री फोर् वीक्स् यद् वयं पठामः तस्य स्वजीवने विनियोगं कृत्वा पुनः अत्र आगत्य वक्तव्यं स्व अत्र स्व अनुभवः कथमस्ति इति अत्र वक्तव्यमस्ति इत्युक्ते आहारे परिवर्तनं कुर्मः चेत् तत्र स्वजीवने कीदृशपरिवर्तनं जायते व्यवहारे परिवर्तनं कुर्मः चेत् अस्माकं जीवने कीदृशपरिवा परिवर्तनं जायते अस्माकं मनसि प्रभावः एतत् सर्वं हौ डु वि फील् वि हेव् टु कमन् एक्स्प्रेस् देट् आफ्टर् इम्प्लिमेण्टिङ्ग् इट् इन् युर् लैफ़् अस्तु अत्र स्थगनमस्ति नमस्ते भगिनि मम नाम दीप्तिः एतस्य मुद्रणं कर्तुं शक्यते किल ध्वनिमुद्रणम् अस्ति अहम् अनन्तरं स्थापयामि लिङ्क् प्रेषयामि अस्तु भगिनि धन्यवादः अस्तु तर्हि अत्र स्थगनं कुर्मः सर्वेभ्यः नमस्कारः धन्यवादाः च नमस्कारः भगिनि क्लास् धन्यवाद एकक्षणम् एकक्षणम् अहं ध्वनिमुद्रणं स्थगनं कुर्म करोमि एकक्षणम्